श्रीमद्भागवत् महापुराणं दशं स्कन्ध अथैकसप्ततितमोऽध्यायः श्रीकृष्णभगवान् का इन्द्रप्रस्थपधार्नां श्रीशोकुवाच यत्योदीरितमाकर्णदेवर्सेवुद्धवो ब्रवीत् सभां सभ्यानां मतमाज्ञाय कृष्णस्य च महामती उद्धौ उवाच यदुक्तमृषीणां देव सा चिव्यं यक्षितस्त्वया कारं प्रयति स्वसेयस्य रक्षा च शरणैषिणां यष्टव्यं राजसूयेन दिक्षक्रजैना विभो अतो जरासृतजय उभयार्थो मतो मम अस्माकं च महानर्थो चेतेनैव भविष्यति जतश्च तव गोविन्दराज्ञो बद्धान् विमुञ्चतः सर्वैदुर्विशहो राजा नागायुत समो बले बलिनामपि चान्येषां धीमं शमबलं विना द्वैरथे सति जेतव्यो मा सताक्षोहिणीयुतः ब्रह्मण्योऽभ्यर्चितो विप्रये न प्रत्याख्याति कर्हि ब्रह्मवेसधरो गत्वा तं भिक्षेत विकोदरः हनस् हनिष्य तेन सन्देहो सर्वस्य कालस्यारोपिणस्तव गायन्ति ते विशदकर्म गृहेषु गोप्यश्च कुञ्जपरं कुञ्जरपते जनकात्मजाया पित्रो सलब्धशरणामुनयो वयं च जरासन्दवध कृष्णभुर्यथायोपकल्पते प्रायपाकविपाकेन तव चाभिमतक्रतु शेषु गुवाच इत्युद्धमवचो राजन् सर्वतो भद्रमच्युतम् देवरसि यदुन्वृद्धाश्च कृष्णश्च प्रत्यपूजयन् अथादिशन् प्रयाणाय भगवान् देवकीसुतः भृत्यान्दारुकं जैत्रादीन् अनुज्ञाप्य गुरुन् विभो निर्गमय्यावरोधान् श्वां च सुतान् स परिच्छतान् शङ्कर्षणमनुज्ञाप्य यदुराजं त ततोपनीतं शरथमारुहतं गरु गरुणध्वजं मृदङ्गभेर्यानकं शङ्खगोमुखैत्रघोषघोषितकुभो निराक्रमत निर्वाजिकाञ्चन शिबिकाभिरचितं सहात्मजापतिमनु सुव्रतायुः बराम्बराभरणविलेपनस्रजः सुसंवृतान्भिरंसे चर्मपाणिभिनरोष गोमयशंखरा सुतर्यनः करेणुभिः परिजनवार्योषितः स्वलङ्कृता कटकुटीकम्बलाम्बरां युज्य सर्वतः बलं बृहध्वज पटच्छत्रचामरैवरायुधाभरणकिरीटवरमभि दिवांशुभिस्तु मुलरवं बभौरवे यथार्णवक्षुभितन्तिमिङ्गिलोर्मिभिः अथो मुनिर्यदुपतिना सभाजित प्रणम्यतं हृदि विदधन् विहा श्रीयसा मुकुन्दसन्दर्शननिवृतेन्द्रियः राजदूतमुवाचेदं भगवान् प्रीणयन् गिरा मा भेषदूतभद्रं दोघातयिष्यति मागधम् इत्युक्ता प्रस्थितो दूतो यथावदों वदन्नृपान् तेऽपि सन्दर्शनं शोरे प्रत्यक्ष आनर्तसौवीरमरुं स्थितिर्वां विनस् विनशनं हरिः गिरिनदीरतीयाय पुरग्रामव्रजाकरान् ततो दृषद्वतिं तीर्त्वा मुकुन्दोऽथ सरस्वतीं पञ्चालानथं मस्यांश्च सकृपस्थमथागमत् तमुपागतमाकर्णप्रीतो दुर्दर्शनं नृणाम् अजातशर्तुर्निरगात सोपाध्याय सुहृदृतः गीतवादित्रघोषेण ब्रह्मघोषेण भूयसाम् अभ्ययात शशिशिकेशं प्राणप्राणमिवादृतः